अथ चतुर्थकाण्डे सप्तमप्रश्नप्रारम्भः चमकप्रश्नप्रारम्भः ओ अग्नाविष्णुसदोषसेमावर्धन्तवाङ्गिरः जुम्नैर्माजविरागरम् आधश्च मे प्रसवश्च मे प्रयदिष्ट मे प्रचदिष्ट मे ज्य मे कृतश्च सवष्टमे प्राणश्च मानस्तमे व्यानश्च मे षष्ट मे चित्तञ्जम आदितञ्ज मे वाच्य मे मनस्थमे चक्षमे श्रतञ्ज मे दक्षश्च मे परञ्जम ओयस्त मे सहस्तुष्टमे जराच मे गणोश्च मे शर्मज मे पर्मज महाधिपत्यं च च मे महिमा मे वरिमा च मे प्रथिमा च मे वृष्मा च मे त्रया च मे वृत्त्यञ्च मे वृत्तिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे भोतञ्ज मे भविष्यच्च मे सुगञ्च मे सुपथञ्च मर्थञ्च मद्धिष्ट मे कृप्तञ्च मे ञ मे मयश्च मे प्रियं मे कामश्च मे कामश्च मे सोमादश्च मे भद्रंजमे श्रेयश्च मे वस्यश्च मे महस्तमे संविच्च मे ज्ञात्रञ्ज मे सोऽष्टमे प्रसोऽस्तमे क्षीरञ्ज मे रजश्च मृतञ्च मे जीवादृष्ट मे दीर्घायुत्वञ्जमे रमित्रञ्ज मे भयञ्जमे शयनञ्जमे सोषाच मे ोर्ज मे सोऽनुदाज मे वयस्य मे रजस्य मे घृदं च मे मधुज मे शक्तिश्च मे सबीरिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च मे जयिश्च मे रायश्च मे पुष्टिश्च मे विभुज मे प्रभज मे मे भोजस्य मे पौर्णञ्च मे पौर्णतरं मे क्षिदिश्च मे मे क्षुश्च मे हृयश्च श्च मे माषाश्च मेतिराश्च मे अस्मा च मे मृत्तिका च मे गिरयश्च मे पर्वदाश्च मे शिखदाश्च मे बृहस्पदयश्च मे हिरण्यञ्ज मे यस्य मे शीषञ्ज मे त्रवश्च मे श्यामञ्ज मे लोहंज मे यस्य मे विरुधश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च शुजमे वसतिश्च मे कर्मज मे शक्तिश्च मेऽर्थश्च मरे वश्च महिदिश्च मे गदिश्च मे ग्निश्च महिन्द्रश्च मे स्वामश्च महिन्द्रश्च मे सविता च महिन्द्रश्च मे सरस्वती च महिन्द्रश्च मे घोषा च महिन्द्रश्च मे बृहस्पतिश्च महिन्द्रश्च मे मित्रश्च महिन्द्रश्च मे वर्णश्च महिन्द्रश्च मे कृष्टा च महिन्द्रश्च मे देवा इन्द्रश्च मे पृथ्वी अन्तरिक्षम् जम च महेन्द्रश्च मेद्यौश्च महीन्द्रश्च जम मे दिशश्च महेन्द्रश्च जम मे मोक्षा च जम मे प्रजापतिश्च महेन्द्रश्च जम मे गोंशश्च मे रश्मिश्च मेदाभ्यश्च मेधिपतिश्च मौ आगोंशश्च मेन्दर्यामश्च महेन्द्रायमश्च मे वैद्रावरुणश्च महाश्विनश्च मे प्रति प्रस्थानश्च मे शुक्रश्च च मे माहेन्द्रस्य मादित्यश्च मे सावित्रश्च मे श्च मे बलिष्ट मे वेदिष्ट मे धिष्णुयाश्च मे सृजश्च मे नमसाश्च मे ग्रावाणश्च मे स्वरोश्चमौ पराश्च मे द्विषमने च मेत्राणकलशश्च मे ग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे श्च मे वत्साश्च मे त्र्यविष्ट मे त्रियवेत मे नित्यवाक्ष्य मे दृत्यौ हेत मे पञ्चाविष्टमेव पञ्चावीत मे त्रिवत्सश्च मे त्रिवत्सा च मे दुर्यवाक्ष्य मे दुर्यौहेतमेव वैष्ठवाच्यमेवष्ठौहेतममुक्षा च मे वशाचमृषवश्च मे धेन मेपानश्च महायुर्यज्ञानकल्पदाम् भानो यज्ञानकल्पदाम भानो यज्ञानकल्पदा यज्ञानकल्पदा यक्षर्यज्ञानकल्पदा कश्चातरज्ञानकल्पदाम् मनो यज्ञानकल्पदाम्माज्ञानकल्पदामात्मा यज्ञानकल्पदा यज्ञायज्ञानकल्पदा एकाद मे दस्रष्टमे मे पञ्चत मे सप्त च मे नव ज एकादशतमे त्रयोदश मे पञ्चदश मे सप्तदश मे नव दश जम एकविंशतिष्टमे त्रयोविघोंसतिष्ट ौचतुष्टमे त्वात्रयुंशच्च मेषुषच्यमे चत्वारिंशत्यमे चतुश्चत्वारिगौषच्यमेष्टाचत्वारिगौषष्टमेवादश्च प्रसवश्चाजश्चक्रतुश्च सवश्च मोर्थाचव्यश्यश्चाञ्चायनश्चात्यश्च भवनश्च भवनश्चाधिपतिश्च वादवनः सप्तप्रदिशश्चतस्रवापरावतः जो न विश्वे देवेर्धनसादा विहावतु विश्वे अद्य मरुतो विश्व ओदे विश्वे भवन्तग्नयः समिद्धा विश्वे नो देवावसागमन्त विश्वमस्त्वद्रविणम् वाजोऽस्मे वाजस्य प्रथमन्दे वारथैर्याता हिरण्यैः अग्निलन्ध्रो बृहस्पतिर्मरुधः वाजे वाजेवत वाजिनो नोधरेषु विप्राहमृता अस्य मध्वप्यवतमादयत्सन्धृतायादपृथिभिर्देवयानी वाजः पुरस्तादतमध्यो नो वाजो देवाजो हृतभिः कल्पयादि वाजस्य हि प्रथवोऽन्नमेत विश्वाशावाजपतिर्भवेयम् वयः पृथिव्याम् वयवोषधीषु पयो दिव्यन्तरिक्षेपयोधा ृदिशस्वम् सम्मासुजामिपयसा कृतेन सम्मासुजाम्यपोषधेभिः स्वाहं वाजगंसनेयमज्ञे न काशा सा समनसा विलोपे धापये ते शिशुमेककंसमीची या वा क्षामा रुक्मा अन्तर्विभाति देवाज्ञन्धारेन्द्रविमोदा समद्रो नस्वानाद्रदा न शम्भो वर्म यो भोरभिमा वा हि स्वाहा मारुतोऽसि मरुदाङ्गणः शम्भोर्म यो भोरभिमा वा हि स्वाहा वस्वस्वान् शम्भोर्मयो भोरभिमा वा हि स्वाहा अग्न्यञ्जनद्विषवसा घृतेन दिव्यगोंसपर्णम् मया बृहन्तम् येन वयम् पदेमभ्रत्मस्य विष्टमगोंस उत्तमे क्षा वजरोपदत्रिणायाभ्यागो रक्षागस्य महाग्रस्येम सुकृतामलोकय्यदर्शय प्रथमदाय पुराणात्रयो निरुन्धक्षस्येन हिरण्यवक्षस्य गुणोऽपुरञ्जर्महान्सुरस्य नमस्ते स्तमायोशे विश्वस्य मोत्तन्मदेश्चितः समुद्रे देवदयमन्तरा युद्या वा पृथिवी भुवनेष्वर्पिदेभ्यन्त दिवः पर्यङ्ग्यादन्तरिक्षात् पृथिव्यास्तदो नोष्ट्यावता दिवो मोधा्याना वयोर्भवामौषधीनाम् विश्वायः शर्म सप्रधानमस्पथे येन ऋषयस्तपदा सत्रमासतेऽन्धानाग्निगो सुवराभरन्त तस्मिन्नहन्यतधेनाके अग्निमेतन्यमाहन्मनवस्थेर्नपरिषम् सम्पत्नीभिरणविक्षेमदेवा पुत्रेर्प्रातुरवाहिरण्यैः नाकन्यस्वस्य लोके तृतीये पृष्ठे अधिरोचनेऽधिवः आवाचो मध्यमरध्वरन्ययमग्नः सर्पदिष्टे गानः पृष्ठे पृथिव्यानि हि गोदमित्यतदस्पदम् अयमज्ञर्वेरतमावयोदाः सहस्रयादेत्म्यतामप्रयच्छन् विप्रायमानस्य निरस्य मध्य उपप्रयातदिव्यानिधाम संप्रत्यवत्तमनुसम्प्रयातात्मेयानान् अस्मिन् सहस्ते अद्यत्तरस्मिन् विश्वे देवा यजमानस्य चेदता येन सहस्रम् वहति येनात्मे सर्ववेदधम् एनेवम् यज्ञम् न वहदेवया नोय बुद्बुद्ध्यस्वादृश्ये नमिष्टासृजयथामयम् च पुनः कण्मर्गस्वापितरम् युवानम् वा यदन्तुमेतम् अयम् देयोद्वयो यदो जातो अरोजथानः वर्धयाहवेश्वरस्त्वयन्द्वयम् धानास्तम् विषेम पश्यन्नमन्दाम् कृतिशरस्य मृतनादे मम देवा वे वेसन्त सर्व इन्द्रावन्द्वा मरुतो विष्णुलक्ष्मिः ममान्तरिक्षमगो मम समस्यम् वादपादा मे अस्मिन् मे देवाद्रवि नमाभिरन्धाम्यय्याशीरस्य मे देवहो दे देव्याहोदारावनशङ्खपौर्वेरिष्टा स्यामधनुवासुवीराः हव्यञ्जलिङ्गमभयानि हव्याकोज सत्यामनस्वास्तु हे नामानिगाङ्गतमत्यहम् विश्वे देवासो अधिवोचदामेश्वरेरुणकृत विश्वे देवास हेविम् नाहास्महि प्रजामातनो धर्मारधामद्विषते सोमराजन् अभ्यर्मण्यम् प्रदन् पुरस्तादध्वा गोपापरिपाहिनस्वम् प्रत्यम् चायन्तः पुनस्ते महिषान्त्यत्तम् प्रबुधा विनेश दादाधातृनाम् दा दा भवनस्य यस्पदर्देवगोसवितारमभिमादशाहम् इमञ्यज्ञमश्विनाभाबुरहःस्पदर्देवाहान् यजमानन्यथाव्यजा नाम एषः शर्म यगोसदस्विन हवे बुरहोदः पुरक्ष समप्रजायै भवन्महेता उपरिस्पृशम्भोक्रम् चरमधराजमक्रन् अर्वाञ्चविन्द्रमतो हवामहेयोगो यः यज्ञम् विहवे स्वास्य कर्म हरिवो मेदनन्द्वाग्नेर्मन्द्वे प्रथमस्य प्रदेतसोऽयम् पाञ्चजन्यम् बहवः स मन्धरे विश्वस्याम् विषप्रविषपागम् समेम हे सलो मञ्जत्वमोहसः यस्येदम् प्राण्यमिषत्यते जयस्य जातम् जनमानञ्जकेवलम् सौम्यज्ञन्नाथ अमे मञ्जत्वमोहरस्य मन्ये प्रथमस्य प्रजतसावृत्रघ्नः सो मा उपमामपागो दातोहवमुपगन्धासरोमञ्जत्वमोहरः यः सङ्गामन्नजम् वशीयुजेयः पुष्टानि सद्राणि सौमेन्द्रन्नाथ्यताजोहवेमि समो मञ्जत्वमोहरः अम्बेवाम् मित्रावरुणादस्य वित्रमो सत्यौ यथा दृमोहनायन् नृदेथेः या राजानगोऽसरथ यातौ ग्रातानो मञ्जतमागसः य वागोनथ रजतस्म्यः सत्यधर्मामितश्चरन्तमुपयादि दोषयन् सौमित्रावर्णानाथो हवीमितौ नो मञ्जतमागसः यास्वितर्विदखा निन्महेयावान्वद्विभृतो या यौ च रक्षतः यौ विश्वस्य परिभोपभोधस्थो नो मञ्चदमाकसः उपश्रेष्ठान आदिषा देवयोद्धर्मे अस्थिरन्न वितारन्नाथितो हीमितो नो मञ्चदमाकसः अधीतमाधेनामहोधये सुभङ्गमिष्ठो जयमे विरश्वैः ेवेश्वनिो मञ्च रमागसः यम् वहतमो सूर्यायास्त्रिचक्रेण सदमिच्छमानो सौमि देवावश्विनौ नाजतो यो हविमितो नो मञ्चदमागसः मरुताम् वन्दे अधुना ब्रुवन्तप्रेमाम् वाचम् विश्वामवन्द विश्वे आशो ने सुयमानोत ते मायुधम् मीडितकुंसः सद्दिव्यकोंशद्धृतनाश जिष्णो सौमि देवान्मरुतो नाथजो हवीमितेनो मुञ्जन्तेन सह देवानाम्मन्वे अधुना प्रबन्धप्रेमाङ्गाजम् विश्वामबन्धविश्वे आशोमा नोत एतेनो मुञ्जन्ते अनुनाद्यानुमतरन्विदनमधयत्वम् वैश्वानरनभूत्यापृष्टादिवे य प्रथयताममितभिरजोभिर्ये प्रतिष्ठे अवगाम् वसूनाम् सौ निद्या वापृथिवेनाधितोजो हवेमितेनो मुञ्चतमगो हसः उर्वे रोदसी परिवकृणादम् क्षेत्रस्य पत्नीयादम् सौविद्या वा पृथिवेनाधितो जो, जो हवेमितेनो यत्ते वयम् पुरुषत्रायभिष्ठाविद्वागो दस्य नागः कृते स्वस्माको अधिरनागावेनागो कृषतामञ्चे प्रसरायो इति चतुर्थकाण्डे सप्तमः समाप्तः चतुर्थकाण्डश्च समाप्तः